आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा उद्यानानि कुबेरस्य समानि विषमाणि च महानदीनि तम्बांश्च गहनान् गिरिगह्वरान् सन्ति नित्यहिमादेश निर्वृक्षमृगपक्षिणः सन्ति नातिक्रामेतपक्षीयान् कुत एवेत रे मृगाः वायुरे को हि यात्यत्र सिद्धाश्च परमर्षयः गच्छन्त्यौ शैलराजेऽस्मिन् राजपुत्र्यो कथं त्वमे न सीदेतामदुःखार्हे मागमो भरतर्षभा पाण्डुरुवाच अप्रजस्य महाभाग न द्वारं परचक्षते स्वर्गेनातप्तम अप्रजस्तु ब्रवीम पितृणाद निर्मु तेनाधना देहनाशे ध्रुवो नाश पितृणाम निश्चय ऋण शुर्भ संयुक्ता जायते मानवा भुवि पितृदेवर्षिमनुजैः देयं तेभ्यश्च धर्मतः एतानि तु यथा कालं यो न बुध्यति मानवः न तस्य लोकाः सन्तीति धर्मवद्भिः प्रतिष्ठितं यज्ञैस्तु देवान् प्रीणाति स्वाध्याय तपसा पुत्रै श्राद्धैः पित्रंश्चापि आन्दृशंसेन मानवान् ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः त्रयाणामितरेषां तु नाश आत्मनि नश्यति पित्रा इदानीमस्मितापसाः इह तस्मात् प्रजा प्रजायन्ते नरोत्तमाः यथैवाहं पितुष् क्षेत्रे जातस्ते न महर्षिणा तथैवास्मिन् मम क्षेत्रे कथं वै सम्भवेत् प्रजा